नारायणीयं दशकं 77 सेवेन् मीटर्स। मीटर्स् स्मरातुराया स्मरातुरायादो भो सललितमुद्धवेन आवासं त्वदुपगमोत्सवं सदैव ध्यायन्त्या प्रतिदिनवास सज्जिकायाः उपददे त्वयि पूर्णमनोरथां प्रमदसम्भ्रमकं प्रपयोधरां विविधमाननमाददधी मुदा रहसिदां रमयाञ्च कृषे सुखं पृष्टां पुनरसाव वृणोद्वरागी भूयस्त्वया सुरदमेव निशान्तरेषु सायुज्यमस्त्विधि वदेद्बुध एव कामं सामीप्य मस्त्वनिशमित्यपि नाब्रवीत् किम् ततो भवान्देव निशासु कासु चिन्मृगीदृशं तां निभृतं विनोदयन् अदादुपश्लोक इति श्रुतं सुदं सनारदात् सत्वदतन्द्रविद्बभौ अक्रूरमन्दिरमिधोध बलोद्धवाभ्यामभ्यर्चितो बहुनुदो मुदितेन तेन येन विसृज्य विपिना गद पाण्डवेयवृत्तं विवेदिध तथा धृतराष्ट्रचेष्टा विकादाजामादुः परमसुहृदो भोजनृपदेर्जरासन्धे रुन्धत्यनवधिरुषान्धेध मधुरां प्रधाद्याैर्द्योर्लब्धैकदिभयबलस्त्वं बलयुदस्त्रयो विंशत्यक्षौहिणि तदुपनीतं समहृद्धाः बद्धं बला दधबलेन त्वं भूयो बलोद्यमरसेन मुमोचिधैनं निःशेषग्जयसमहृद विश्वसैन्यात् कोऽन्यस्तदो बलपौरुषवांस्तदानीं भग्नस्य लग्नहृदयोऽपि नृपैः प्रणुनो युद्धं त्वया व्यथितषोडशकृत्व एवम् अक्षौहिणी शिवशिवास्य जखन्दविष्णो सम्भूय सैकनवदि त्रिशतं तदानीम् समरे समुपे युषित्वं दृष्ट्वा पुरोध यवनं यवनत्रिकोट्या त्वष्ट्राविधाप्य पुरमाशु पयोधिमध्ये तत्राधयोगबलदस्वचनाननैषीः पद्भ्यां त्वं पद्ममाली चकिद इव पुरान्निर्गदो धावमानो म्लेच्छेश्येनानुयादो वध सुहृदविहीनेन शैलेन्यलैषीः सुप्तेनाङ्घ्रियाहदेन द्रुतमथ मुचुकुन्देन भस्मीकृदेस्मिन् धूपायास्मै गुहान्ते सुललितवपुषा तस्तिषे भक्रिभाजे। ऐक्ष्वाकोहम् विरक्तोऽस्मि अखिल नृपसुखे त्वत्प्रसादैककाङ्क्षी हा देवेदि स्तुवन्दम् वरविततिषुतम् निःस्पृहम् वीक्ष्य हृष्यन् मुक्ते स्तुल्यां च भक्तिम् धुद सकलमलम् मोक्षमप्याशु दत्त्वा कार्यम् तप इति च तदा प्रास्तलोकप्रतीत्यै तदनु मधुरां गत्वा हत्वा च मों यवनाकृतां मगधपदिना मार्गे सैन्यैः पुरेव निवारितः चरमविजयं दर्पायास्मै प्रदाय पलायितो जलधिनगरीं यादो वादालयेश्वर पाहि मां सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द